स्मादेशम् नासिदेयम् ब्रम्भौ धनम् भजति पुत्रकाम सप्तर्षयो भूतकृतश्चेत्थान्धम् ध्वप्राजया सहेहतधूमम् रषणः सखायोद्राभाविकावाचामक्ष अयमज्ञप्रियतनाशासु मे रायेन देवाः सहम् गतस्योन् अज्ञे च निष्ठ महति वीर्याय ब्रह्मोदनाय भक्तवे जातवेदः सप्तविषयो भूतकृतश्चेत्त्वा चे जनस्येदयम् सर्ववीरम् नियच्छ समिद्धो अग्ने समिथा समेर्थ स्वविद्वान् देवान्निज्ञयाङ्गेहवक्षः तेभ्यो हविः समयम् जातवेदवृत्तमन्ना कामधेरोहयेमम् त्रेधा भागो निहेतो यः पुरा देवानां देवानाम् पितॄणाम् मत्यानाम् अंसाञ्जाने ध्वम् विभाजामितान् भोयो देवानाम् श्रीमाम् पालयाति अग्नेसहस्रानभिषदः सपत्नान् इयम् मात्रा मीयमानामिता च स जाताम् स्थैवलहृदः कृणोतु साकम् स जाते पय सा सहैभ्यत्वम् महते वीर्याय भोर्ध्व कस्याधेरोऽहविष्टपम् स्वर्गोलोक इतियम् वदम् इयम् महे प्रदे गृह्णात चर्म पृथिवे जयवे सोमनस्य माना अथा गच्छम सुकृतस्य लोकम् एतौ ग्रावाणौ सयुजायुध्य चर्माणि निर्भ्यम् साधु अवघ्नते निज हे माम् प्रयतन्यवोर्ध्वम् प्रजामुद्भरन् यतो ह्रहाणग्रावाणौ सकृतो वेन हस्तातेः दे देवायज्ञा यज्ञमागुः प्रयोवरा यथ माम् स्वम् गृह्णीशेताश्च समृद्धिरिहराधयामि यम् ते धीतिरदमोचरित्रम् गृह्णा धामदे शूरपुत्रा परा पुनेः ये माम् दृधन्यभोस्येरयम् सर्वा वेदन्य यच्छ उपश्वासभ्रुवयसेदता योऽयम् विविच्यर्थै यज्ञासस्तुषैः श्रियासमानानति सर्वान्स्यामाधस्पदम् देशपस्पादयामि परेः नारिपुनालेः क्षिप्तमहान्ता गोष्ठोऽध्यारुक्षद्भराय तासाम् गृह्णेताद्यदामायज्ञयासन् विभाज्यधिरेतराचहीतात् हे मा गुरुयोषितः शुम्भामाना उत्तिष्ठनारि तम संरभस्व सुपत्नीभ्या प्राजया प्रजाभक्त्या त्वागण्यज्ञः प्रदे कुम्भम् गृभाय ओर्ज भागो निहेतोयः पुरा वादृशप्रशष्ठाः भारयिताः अयि यज्ञो गाः सुविन्ना अग्ने चरुर्यज्ञयस्वाध्यारुक्षच्छुतिस्तपिष्ठस्तपसातपैनम् आर्षेया दैवाभिषङ्गत्य भागमिमम् तपिष्ठा ऋतुभिस्तवन्तो शुद्धा भोदा योषितो यज्ञिया इमा आपश्चतुमव सर्पन्तु शुभ्राः अदुः प्रजाम्बहुलान् पशोन्नः पक्तौ धनस्य सुकृतामे तुलोकम् ब्रह्मणा शुद्धा उत भूता घृते न सोमः स्याम् जलस्तम् दुना यज्ञिया इमे अपःप्रवेशसप्रदे गृह्णातु वश्चरुरिमम् गुरुप्राचस्सु महातामहिम्नासहस्रपृष्ठस्व कृतस्य लोके पितामहापिदरप्रचोपजाहम् पक्त्वापम् च दशस्ते अस्मि सहस्रपृष्ठशतधारो अक्षेदो ब्रह्मो तनो देहलस्वर्गः मोसा दधामि प्रजया देशयैनान् बलिहालाय मृधान्मह्यमेव उदेहि वेदिम् प्रजया वर्धयैनाम् मुदः रक्षःकृतरन्धे लह्येनाम् श्रिया सर्वान् समाधस्पदम् देश तस्त्वा अभ्यावर्तस्त्वपशुभिः सायिनाम् प्रत्यगेणाम् देवताभिः सहैः मात्रापच्छमाभि कालस्य क्षेत्रे अनमेवाविराज ऋतेन दष्टा मनसा हितेषा ब्रह्मो दलस्य विहिता वेदिरग्रे अम् सद्येयम् शुद्धामुपाधेहि नात्रो धनम् साधय दैवानाम् अते रहस्ताम् कृतमेताम् द्वितीयाम् सप्तर्षयो भोधकृतोयाम कृण्वन् सारात्राणि विशिष्य धनस्य गर्विर्वेद्यामध्ययनम् चिनोतु श्रुतन्ता हव्यमुपासीतम् च देवानिस्वभ्याग्ने पुनर्नाद् सोमेन भूतौ च ठे सेद ब्रह्मणा माशयास्ते मादेशम् भाषिताः सोमहाराजन् सन्ध्यानमवापयेभ्यः सुब्राह्मणायतमे द्ोपसीदान् जाताम् ब्रह्मोदने सुहवाजो हवीमि श्रुद्धा पोता योषितो यज्ञिया इमा ब्रह्मणाम् हस्ते शुक्रपृथसादयामि यत्काम इदमाभिषिञ्चामेवोऽहमिन्द्रो मदत्तान् सदा इदम् मे इदम् हे ज्योतिरमृतम् हिरण्यम् पक्वञ्छेत्रात्कामदुःखामयेषा इदम् धनम् निदाधे ब्राह्मणेषु कृ पन्थाम् विदर्शय स्वर्गः अग्नौ तु शालापापजातवेदसि परः कम्बोकापरामृढिदूरम् एतम् समग्रहराजस्य भागमथो विद्मनिरदेर्भागधेयम् साम्यदः पचातो विद्धिसंहदपन्थाहम् स्वर्गमधेरोहयैनम् येन लोहात्परमापज्जयद्वय उत्तमम् नाकम् परमम् योम बभ्रयरब्धर्योमुखमेतत्विमृड्यार्ज्याय लोकम् करणहि प्रविद्वान् घरे न गात्रानुसर्वानुग्रढि कृपङ्क्तिकृषयः स्वर्गः बभ्रैरक्षः समदामवपयेभ्यो ब्राह्मणाय च मे त्वोपशीलान् पुरेश न प्रथमानाः पुनस्तादाश्रेयाश्चे मारे शम् प्राशिदाः आशेयेषु निदधोदयानामप्यस्त्यत्र अग्निर्मे गोप्तामरुतश्चे विश्वे देवाभिभाषन्तु पक्वम् यज्ञम् दुहानम् सदामिप्रबीनम् पुमानम् सन्धेन सद जामृदत्तमुदीर्घमायो राजश्च पोषैरु गत्वा सदेम विषभो स्वर्गदर्शेनार्षेयाम् गच्छ सुकृतान् लोके सेत तत्र नौ संस्कृतम् समाजे अश्वानुसंवयाच्यग्ने पथः कल्पयदे एते स्वकृतेरनो गच्छ म यज्ञम्ना चेतुष्ठम् दे सप्तरस्मौ येन देवाज्योदेशाध्यामुदायम् ब्रह्मौ धनम् पक्त्वा सौकृतस्य लोकम् तेन केश्म सुकृतस्य लोकम् स्वकारोऽहम् कोऽभिनगमुत्तमम् भवा सर्वो मृणतम् माभियातम् भोधावशोपते नमो वा प्रदेहितामायताम् माविशाष्टम् मा न हिन्धष्टम् विपतो मा चतुष्पदः श्रुरेः क्रोष्ट्रे माशले राकर्तामणिक्लवेद्भ्यो मृद्धेऽद्भोये च कृष्णाः विश्वाः भक्षेकास्ते पशुपते वयांसिते विघासे मावेदन्त क्रन्दायते प्राणायाश्च ते भवनोपायः नमस्ते रुद्रकण्मसहस्राक्षायामत्या पुरस्ताद्धे नमः कृमव उत्तरा नमः मुखाय दे भते यानि चक्षोंशिते भव तत रूपाय सन्दृशे प्रदेचेनायते नमाह अङ्गेऽभ्यस्त उदराय जिह्वाय आस्यायते तद्भवागन्धाय ते नमाह हस्ताने शिखण्डेन वाजिना भासिना स नो भवत् परे वृणक्तु विश्वशाप इवाग्निः परे वृणक्तु नो भावः मानोऽभिमांस्त नमोऽस्तस्मै नमस्ते तवेमे पञ्चपशवो विभक्ता गावो अश्वा पुरुषा चापयाः नव चतस्रप्रतिशस्तपद्योत्सव पृथिवेदवेदमुग्रोर्वा आन्तरिक्षम् स्ववेदम् सर्वमात्मन्वद्य प्राणकृषिवे मनो पुरः कोशावसुधानस्तवायै यस्मिन्निमाविश्वाभुवनान्यन्तः धनामृढपशुपते नमस्ते परः प्रोष्टार अभिभास्वारः परोऽयम् पहर्दो विघे स्याः धन विभर्षे हरेतम् हिरण्ययम् सहस्रग्निशदवधम् चिखण्डिन् रुद्रस्ये शरदिदेवहेतिष्ठस्यै नमो यथमस्याम् दीशीतः भियातो निलयते स्वामृद्रनिचिकेर्षते पश्चादनम् नयम् क्षेतम् विद्धस्य पदालीलेव भवा रुद्रौ सयुता संविधानामुभावग्रौ च रतो वीर्याय ताभ्यान्नमोयतमस्याहम् नमस्तेऽस्वायते नमोऽस्तु परायते नमस्तेष्ठतासीनायोतते नमः नमः सायन्नमः प्रातर्नमोराध्यानमोदिपा भवाय च शर्वाय चोभाभ्यामकरम् नमः सहस्राक्षमादिपश्यम् पुरः सुद्रमश्यन्तम् बहुधा वि कश्चितम् मोपा रामजिह्वये य ओम् वै प्रदे मोनमास्तस्मै मानोभिः स्रामत्यम् देवहेतिम् मानक्रुतः पशुपते नमस्ते अन्यत्रास्मद्दिव्याम् साखाम् विधो न मा नोहिंसे रथेनो ब्रूहि बलेनो वृन्धिमाक्रोधः मा द्वया समागामहे मा नो गोषु पुरुषेषु अजाविशो अन्यत्वाग्रविवर्तय प्रियारूणाम् प्रजाञ्जलहि यस्य तक्ष्मा काही काहेतिर्कमश्वस्य का पृषनष्टम् दयति अभि पूर्वम् निर्णयते तमोस्तस्मै योन्तरिक्षिष्टभितो यज्वलप्रमृणन् देव पीयून् तस्मै न मो दशभिः शब्दरेभिः तुभ्यामारण्या पशवः मृगावने हिताहंसा तव यक्षम्पशुपत् अप्स्वा आम् तस्त्वभ्यम् शरम् दिव्या आपो वृधे शिक्षुपालाः अजगारा पोरेकयाः दशामत्स्याः रजसायेभ्यो अस्यसि दूरन्नपरिष्टास्ते भव सद्यः सर्वाङ्रे पश्यति भूमिम् पूर्वस्माद्भरंस्यत्तरस्मिन् समुद्रे मानो रुद्रदग्मनामाविष नमानः संस्रा दिव्यनाग्निना अन्यत्तास्मद्विद्युतम् पातयेताम् भवो दिव भवये च पृथिव्याभवापप्रभुर्वान्तरिक्षम् तस्यै न मोयतमस्याम् देहीकः भव राजम् यजामाना ृडपशूनाम् हिव शुभदिर्बभूथ यः श्रद्धनादिशन्ते देवानि दे चतुष्पदे द्विपदे अस्य मृड मानो महान्तमुतमानो आत्मकम् मानो वहन्तमुतमानो वक्ष्यतः मानो इन्द्रेर्पितरम् मातरम् तस्वा म् रुद्रमारेरिमो नः रुद्रस्येलपतारेभ्यो संसोक्तगिलेभ्यः इदम् महास्येभ्यश्वभ्यो अकरम् नमाह नमस्ते भोषिणेभ्यो नमस्ते केशिनेभ्यः नमो नमस्कृताभ्यो नमः मम स्थेदेवसेनाभ्यस्वस्तिनोभायम् जनः तस्यो दलस्य बृहस्पतिशिरो ब्रह्ममुखम् द्यावापृथिवेशत्रे सूर्यचन्द्रमसावक्षेणे सप्तलषयः प्राणापानाः चक्षुर्मुसलङ्कामकुलोखलम् दिदेशोऽर्पमदेशोऽर्पग्राही वातोपाः विनक् अश्वाः कणादावस्तण्डुलामशकास्तुषाः कप्रोफले करनाशरोभ्राम् श्याममयोऽस्य मांसानि लोहेतमस्य लोहेतम् रभस्माहरेतम् वर्णः पुष्करमस्य गन्धः पात्रंस्तांस विषयाे आन्त्राणि तत्र बोबुदावलत्राः इयमेव प्रेचवे कुम्भे भवतिलाध्यमानस्योदलस्यद्यौरापिधानम् सीतास्पर्शवशिकतामूपध्यम् ऋतम् हस्तावने च नुल्यापासे चनम् रुजाकुम्भ्यधीहितात्विज्येन प्रेषिता ब्रह्मणा परिगृहीतासाम् नापर्योढा बृहतायवानम् रथन्तरम् धर्मेः ऋतवः पकार आत्मवा धर्मो जः सर्वे लोकाः समाप्याः यस्मिन् समुद्रा भूमिस्क्रियो वरपरम् श्रुताः यस्य देवाकल्पन्तोच्छिष्टषडशीतयः पन्तो दलस्य पृच्छामि यो अस्य महिमा महान् शयवो दलस्य विद्या माल्प इति प्रो यान्ना नोपसेचन इति नेदम् च किञ्चेति यावद्दाताथे मनस्येत तन्ना ब्रह्मवादिनो वदन्ति पराम् च मोदनम् रासि पत्यञ्चम् चैनम् प्राशेण पाना स्वाहास्य चेत्येनवाहमोदरम् नमामोदः ओदन एवोदनम् प्राशीत् प्रतश्चेन मन्येन शीर्ष्णात्माशेव्येन चैतम् पूर्ववृषयः प्राश्मन् ज्येष्ठ प्रजामादिश्च तम् वा अहम् नाग्न्नपराहम् चन्न ना प्रत्यङ्गम् बृहस्पतेनाशेष्मा तेनैनम् प्राशेषम् तेन एनमजे गमम् एष वावो दलः सर्वाङ्गः सर्वाङ्ग एव सर्वापरः सर्वागमोः सम्भावदय एवम् वेद ततश्चेदमन्याभ्याम् श्रोत्राभ्याम् प्राशीर्याभ्याम् चैदम्बोर्वविषयः प्राश्नन्विश्व चेत्यमाह तम्बाहन्नागवान् जन्नपराहम् कन्न प्रत्यम् भ्याम् श्रोत्राभ्याम्भ्याः मेनम् राधेरन्ताभ्याः मेनमजीगमम् एष वावो हनः सर्वाङ्गः सर्वापरः सर्वातनोः सर्वाङ्ग एव सर्वापरः सर्वातनोः सम्भावम् वेद ततश्चेदमन्याभ्यामक्षेभ्याम् राशेर्याभ्याम् चैदम्बोर्वाषयः प्रास्नम् अन्धभावश्चेत्ये नमः तम् वा अहम् नार्वाञ्चन्नपराञ्चन्नप्रत्यञ्चम् सूर्याचन्द्रमसाभ्यामक्षेभ्याम् भ्यामेनम् प्राशेषम् ताभ्यामेनमजिगमम् एष भावोदनः सर्वाङ्ग एव सर्वापरः एवम् वेद तदस्त्येन मन्येन मुखेन प्राशील्येन चैतम् पूर्वर्षयः प्राश्नम् खातस्य प्रजामानिश्चाशीत्येन माह कम्वाहन्नार्वाञ्छन्नपराहञ्चन्न प्रत्यञ्चम् ब्रह्मणामुखेन प्रेनशेषम् तेनैनमजैगमम् एष बालोदनः सर्वाङ्गः सर्वपः सर्वतमोः सर्वाङ्ग एव सर्वापरः सर्वातनोः सम्भावति य एवम् वेद ततश्चन मन्यया जिह्या प्राशीर्यया चैतम् पूर्वर्षयः प्राष्टन् जिह्वादे मनुष्यतीत्ये न माह कम्बा अहन्यार्वाचन्नपराच्छन्न प्रत्यम् अग्ने जिह्वयाः यैम् प्राशेषन्तयेनमजेगमम् एष भावो धनः सर्वाङ्गः सर्वपरः सर्वतमोः सर्वाङ्ग एव सर्वपरः सर्वतमोः सम्भावति य एवम् यदा ततश्चैनमन्येर्दन्तये प्राशेक्लेश्चैकम्बोर्वायः प्राश्नन् दन्ताश्लेषस्य न क्लेत्येनमाह म् वा अहम् नार्वाचन्नपलाञ्चन्न प्रत्यञ्चम्बन्तैः तैरनम् प्राशेषम् तैरेन मजेगमम् येष वावोतनः सर्वाङ्गः सर्वपुरुः सर्वतनोः सर्वाङ्ग एव सर्वपरः सर्वतमोः वेद तदर्शयनमन्ये प्राणपानैः प्राशेर्यैश्चैतम्बोर्वर्जाय प्राश्नन् प्राणापानास्वाहास्य चेत्ये नम् वा अहन्नार्वाञ्चन्नबलाञ्चन्नप्रत्यञ्चम् सप्तर्षप्राणपानैः तैलेनम् प्राशेषन्तैरेनमजेगमम् एष भावो जतः सर्वाङ्गः सर्वपलुः सर्वतमो सर्वाङ्ग एव सर्वपलुः सर्वतमो सम्भवति य एवम् वेदा तदश्चैनमन्येन यत सा प्राशील्येन चैतम् पूर्व्याय प्राश्नन् राजयक्ष्मस्त्वानिष्यतीत्येन कथम् वा अहम् नाल्वा चन्नपराहम् चन्न प्रत्यम् अन्तरिक्षेणव्यच तेनैनम् प्राशेषम् तेनैनवजेगमम् एष भावोदनः सर्वाङ्गः सर्वाफलः सर्वातनोः सर्वाङ्ग एव सर्वाफलः सर्वातनोः सम्भावते एवम् वेद कृतश्चेन मन्येन पृष्ठेन प्राशेर्येन चैतम्बोर्वर्षयप्राः सन् विद्युत्पाहनस्य अचैत्येनमः तम्बाहन्नार्वाञ्छन्नपराहम् चन्न प्रत्यञ्चम् दिवा पृष्ठेन तेनम् प्राशेषम् तेनमजैगमम् एष भावोदनः सर्वाङ्गः सर्वापदुः सर्वातनोः सर्वाङ्ग एव सर्वापनुः सर्वातनोः सम्भावदिय एवम् वेद तदश्चेन म् वाहन्नार्वाञ्चन्नपराहम् चन्न प्रत्यञ्चम् ऋषिव्योदसा तेनैनम् प्राशेषम् तेनैनमजेगमम् एष बाबोः धनः सर्वाङ्गः सर्वापरः सर्वातनोः सर्वाङ्ग एव सर्वापरः सर्वातनोः सम्भावत एवम् वदश्चेन मन्येनोदरेण प्राशीर्येण चैतम् पूर्वविषयः प्राश्नन् उदरतारस्वाहनिष्यतीत्येन ना वाह पम्बाहन्नार्वाञ्चन्नपलाहञ्चन्न प्रत्यञम् सत्येनोदरेण तेनैनम् प्राशेषम् तेनैनमजैकमम् केशमावोदनः सर्वाङ्गः सर्वापनुः सर्वातनोः सर्वाङ्ग एव सर्वापनुः सर्वातनोः सम्भावति एवम् वेद ततश्चेन मन्येन वस्तिनात्माशीर्येण चैतम्बूर्वार्षयः प्राश्नन् अप्सुमारिश्याशीत्येन माह तम् वाहन्नार्वान् चन्नपराम् चन्नः प्रत्यङ्गम् समुद्रेण वस्थिना तेनैनम् प्राशेषम् तेनैनमजीगमम् क्लेशवावोदनः सर्वाङ्गः सर्वापलुः सर्वातनोः सर्वाङ्ग ततश्चैनमन्याभ्या मोरुभ्याम् प्राशेर्याभ्याम् चैकम् गोर्वर्षय प्राश्नन् ओरुते मरिष्यत इत्येनमाह तम् वाहन्नार्वाञ्चन्न पराञ्चन्न प्रत्यञ्चम् निरुणयोरूरुभ्याम् ताभ्यामेव सम्प्राशेसन्ताभ्या मे नवजैकमम् एष भावो धनः सर्वाङ्गः सर्वापदः सर्वातनोः सर्वाङ्ग एव सर्वापदः सर्वातनोः सम्भावतु य एवम् वेद म् वा अहम्नार्वान्तन्नपरान् तन्न प्रत्यञ्चम् त्वरष्टो रश्चेवभ्याम् वाभ्या मेनम् वा शेषन्ताद्भ्या मेनमजीगमम् एष वेद ततश्चैमञ्जाभ्याम् पादाभ्याम् प्राशेजाभ्याम् चैतम्बोर्वादृशायः प्राश्नन् बहुकाले पाविश्यसेत्ये न वा तम्बाहन्नारुन् तन्नपराम् चन्न प्रत्यञ्चम् अश्विनाः पादाभ्याम् ताभ्यामेनम् प्राशेदम् ताभ्यामेनमजेगमम् एष वावो दनः सर्वाङ्गः सर्वापदः सर्वादनोः सर्वाङ्ग एव सर्वापदः सर्वातनोः सम्भावते एवम् वेद परश्चैनमन्याभ्याम् प्रपादाभ्याम् प्राशेव्याभ्याम् चैतम्बोर्वः प्राश्नन् सर्पस्त्वाहनिष्यतीत्येन म् वा अहम् दार्वाञ्चन्न पराम् चन्न प्रत्यन्तम् सविदुः प्रपादाभ्याम् वाभ्यामेनम् प्राशेषम् ताभ्यामेनमजेगमम् एष वावोदनः सर्वाङ्गः सर्वापरः सर्वदमोः सर्वाङ्ग एव सर्वापरः एवम् वेद ततश्चैतमन्याभ्याम् हस्ताभ्याम् प्राशेर्याभ्याम् चैतम् वोर्वार्षयः प्रास्नन् ब्राह्मणम् मा निःश्यसीत्येनमाह तम् वा अहम् नर्वाञ्चन्नपराञ्जन्न प्रत्यञ्चम् तदस्य हस्ताभ्याम् ताभ्यामेनम् प्राशेषम् ताभ्यामेनमजेगमम् एष भावोदनः सर्वाङ्गः सम्भावते सर्वा एवम् वेद ततश्च मन्यया प्रतिष्ठया प्राशीर्त्यया चैतम् पूर्वविषयः प्राश्यन् अप्रतिष्ठानो तम् वाहन्नार्वाञ्जन्नपराहम् जन्न प्रत्यञ्छम् सत्ये प्रतिष्ठाय तैनम् प्राशेषम् तयैनमजेगमम् एष वावो दनः सर्वाङ्गः सर्वपलुः सर्वाङ्ग एव सर्वपलुः सर्वतनोः सम्भावय एवम् वेद एतद्वये प्रधस्य ब्रह्मलोको भवति प्रध्नस्य विष्टभिश्चयते य एवम् वेद एतस्मात् मा वोदला त्रयस्त्रिंशदम् लोकान्निरामिमेतः प्रजापतिः येषाम् प्रज्ञानाय यज्ञमाश्रत ये स एवम् विदुषा उपद्रष्टाभावति प्राणम् रोणद्धि न च प्राणम् ऋणद्धे सर्वज्ञानि जीयसे न च सर्वज्ञानम् जीयते पुरेणम् जलसः प्राणो जाहादि प्राणायनमो यस्य सर्वविदम् वशेः नो भूतः सर्वस्यैश्वरो यस्मिन् सर्वम् प्रतिष्ठितम् नमस्ते प्राणक्रन्दाहाय नमस्ते सरयित्मवे नमस्ते प्राणविद्यते नमस्ते प्राणपरिषते यत्प्राणस्ता न यत्मना भिक्त्रम् सत्योषाधेः प्रवेहीयन्ते गर्भान् तथा तेभोपक्वेर्विजायन्ते यत्प्राणर्भावागाते भिक्त्रम् सत्योषाधेः सर्वम् तदा प्रमादते यत्किञ्च्यामहे यदा प्राणोऽभ्यपर्षेत्पर्ष न पृथिवेम् महे पशवश्चत्मोदन्ते महो वैनो भविष्यति अभिवृष्टावोषधयप्राणेन समादिनन् आय्वै न प्रादेतरः सर्वानः सुरभिकः नमस्ते स्वायते नमोऽस्तु नमः नमस्ते प्राणप्राणते नमोऽस्त्वपानते प्राचीनायते नम प्रतीचीनायते नमः सर्वस्मैद इदम् नमाः काते प्राणप्रियातनोर्योदे प्राणप्रेयसी अथोयन्ते शगन्तवदस्य नो हे हि दीवसे प्राणः प्रजानो वस्ते पिता पुत्रमेव प्रियम् प्राणोह सर्वस्यैश्वरो यच्च प्राणजयच्च न प्राणो मृत्युः प्राणस्तत्मा प्राणम् देव उपासते प्राणोः सत्यवादिनमुत्तमे लोकादधत् प्राणोविदात् प्राणोदे स्वेयः प्राणम् सर्व उपासते प्राणोहर्यश्चन्द्रमा प्राणमाहु प्रजापतिम् प्राणापानो ब्रीहि यवानद्वाम् प्राणमुच्यते यमेह प्राणाहितोपानो ब्रीहिरुच्यते अपानतिप्राणादिपुरोषो गर्भेऽन्त्वदा यदा त्वम् प्राणादिन्वस्य सायते पुनः प्राणमाहुर्मातनिश्वानम् वातोः प्राणमुच्यते प्राणेह भूतम् भौविम् च प्राणे सर्वम् प्रतिष्ठितम् आशर्मणीराङ्गिरसे दैवेर्मनस्य जामुत ओषधय प्रजायन्ते यदा त्वम् प्राणजिन्वसि यदा प्राणाभ्यवर्षे वर्षेण पृथिवीम् महीम् ओषधय प्रजायन्ते चोयास्काश्च विरुधाः तस्मै प्राणेदम् वेद यस्मिंश्चासि प्रतिष्ठितः सर्वे तस्मै बलिम्हरामकुष्णील्लोकमुत्तमे यथा प्राणबलिहतस्तुभ्यम् सर्वा प्रजा इमाः एवादस्मै बलिम्भरान्यस्त्वाशृणवः सुश्रवः अन्तर्गर्भश्चरति देवता स्वाभूतो भूतः पुनः स भूतो भव्यम् भविष्यत्पिता बुद्धम् वृपी वेशाशुचेभिः एकम् पादन्नोद्धेदतिशलीलार्थम् स उच्चरन् यदङ्गतदमखिलेर्नैवाजरश्वस्यान्नरात्रे गाः स्यान्नव्युच्छेत् कदाचन अष्टाचक्रम् वत्पतलेकनेमि सहस्राक्षरम् प्रबुलो निपश्चात् अर्थेन विश्वम् भुपालम् गजानयतः तमस्तकेतुः यो अस्य विश्वजन्मन ईश विश्वस्य चेष्टतः अन्येषक्षुप्रधन्मने तस्मै प्राणनमोऽस्तुते यो अस्य सर्वजन्मन ईश सर्वस्य चेष्टतः अतम् को ब्रह्मनाधीरः प्राणो मानो तिष्ठतो ोर्ध्वः सुप्तेशो जागारनमतिर्यपद्यते न सुप्तमस्य सुप्तेश्वर सुश्रावकश्च सदा धालिवेन्दिवम् च साचार्याम् तपसा पिपत्ति ब्रह्मचारिणम् पितलो देवजना पृथग्देवाः नशय्यन्ति सर्वेः गन्धर्वायेः नमन्वायन्त्रयस्त्रिंशत्त्रिशता षट्सहस्राः सर्वांसदेवांस्तपसा पिपत्ति आचार्यागुपनयमानो ब्रह्मचारिणम् कृणुते गर्भवन्तः त्वम् रात्रे स्तिस्रमुदले विभर्तितम् जातम् द्रष्टोपभिषयन्ति देवाः इयम् समित्प्रथिवेद्योद्विती लोकान्तरिक्षम् समिधाति ब्रह्मचारे समिधा मेखालहाश्रमेण लोकाम् ोर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मम् वसानस्तपो न तिष्ठत् तस्माज्जातम् ब्राह्मणम् ब्रह्म ज्येष्ठम् देवाश्च सर्वे अमृतेन साकम् ब्रह्मचार्ये समिथा समिद्धाष्टम् वसानो चेत् शितो सद्यये यपोर्वस्मादुत्तरम् समुत्रम् लोकान् सङ्गृभ्य मोराचरिकृत् ब्रह्मचारे जनयन् ब्रह्मापो लोकम् प्रजापादिम्बरमेष्ठिनम् विराजम् गर्भो भोत्वा अमृतस्य यो नाविन्द्रोः भूत्वा आचार्यस्तदक्षलभासे उभय इमे पूर्वेकम् भेरवृथिवेन्दिवम् च ते रक्षदितमरसा ब्रह्मचारे तस्मिन् देवाः सम्मानसो गत्वा समिधाुपास्तेतयोरात्म्ये पापबलानि विश्वाः अर्वागण्यः परो अन्यो दिवः स्पृष्ठाद्गुहा निेनहेधौ ब्राह्मणस्य तौ रक्षसि तपसा ब्रह्मचारे तत्केवालङ्कृते ब्रह्म विद्वान् अर्वागण्ययितो अन्यः पृथिव्या अग्नि समेतो नभसीरन्तले अंतलेमे। योश्रयन्ते रश्मयोधे दृढास्थाना तिष्ठति तपसा ब्रह्मचारी अभिक्रन्दन् स्थगयन् रोडस्येतिङ्गो बृहच्छेकोऽनुभूमौच भाव ब्रह्मचारी सिञ्च दिशा तेन जीवन्ति प्रतिशश्चतस्रः अग्नौ सूर्ये चन्द्रमसि मतरिष्वन् ब्रह्मचार्या आप्सु समिधमादधाति भासा मध्येम् शपुषगभ्रचरन्दिता सामाज्यम् पुरोष वरुषमापाः आचार्यो मृत्यवरोणः सोमवोषधयपयाः जीमोतासन् सत्मा नस्तेदम् स्वाहा ममाघतम् क्रणते केवलमाचार्य भूत्वावरोणायद्यथैच्छत् प्रजापतौ तद्ब्रह्मचारे प्रायच्छत्स्वान्त्र अध्यात्मनाः आचार्य ब्रह्मचारे ब्रह्मचारे प्रजापतेः प्रजापातिर्विजति विराडिन्द्रोऽ भवद्दर्शि ब्रह्मचर्येण तपसाराचाराष्ट्रम् विलक्षति आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ब्रह्मचर्येण कन्या आयुवानम् विन्दते पतिम् हनद्वान् ब्रह्मचर्येणा स्वघासम् जीजेसति ब्रह्मचर्येण तपसा देवामृत्युमुपात इन्द्रोः ब्रह्मचर्येण देवेभ्यस्वा आराभारते वोषाधयो भूतभव्यमाहोरात्रेव वनस्पतेः संवत्सरः सहत्वभ्यस्ते जाता ब्रह्मचारिणः वार्थे वा दिव्याः पशवारण्याघ्राम्याश्च ये अपक्षाः पक्षिणश्च अये ते जाता ब्रह्मचारिणः पृथक् सर्वे प्राजाभक्त्या तान् तान सर्वान् ब्रह्मा रक्षते ब्रह्मचारिण्याभृतम् देवानामे ूतमनभ्यारूढम् जलतीरोचमानम् तस्माज्जातम् ब्राह्मणम् ब्रह्म ज्येष्ठम् देवाश्च सर्वे अमृतेन ब्रह्मचारे ब्रह्मभ्राजर्विभर्जितस्मिन् देवाधिविश्वे समोताः प्राणापालो जनयन्नाध्यानम् वाचम् मनोहृदयम् ब्रह्म चक्षश्वाञ्ज अस्माको धेह्यम् नम्रे को लोहेतमुदरम् तानि कल्पद्ब्रह्मचालेशलिलस्य पृष्ठे लो तिष्ठत्तप्यमानः समुद्रे स्रादो बभृक्तिम् गलप्पृथिव्याम् बहुरोचते अन्यम् ब्रो मो वनस्पते नोषधेरुतवेरुधः इन्द्रम् बृहस्पतिम् सोऽयन्तेनो मुञ्चन् तुम् हासः लोमो राजानम् वरोढम् मित्रम् विश्वमथोभगम् अंसम्विवस्पन्दम् रोमस्त्येनो मुञ्चन्तुम् हासः रोमो देवम् सवितारम् धातारमुदभूषणम् कष्टाहारमक्रियम् रोमस्त्येनो मुञ्जन्तुम् हासः गन्धर्वाप्सरसोऽ प्रोमो अश्विना ब्रह्म बृहस्पतिम् अर्यमाणावयो देवस्तेनो मुञ्जन्तुम् मासः अहो रात्रे इदम् प्रोमः सूर्यायम् नमसा बुभा विश्वानायत्याम् रोमस्तेनो मुञ्जन्तुम् मासः मातम् प्रोमः पर्यन्मन्तरिक्षमजतिषाः आशाश्च सर्वा ब्रोमस्थ्येनो मुञ्चन्तम् हासः मुञ्चन्तो मासपथ्यादहो रात्रेऽधोषाः सोमो मादेव मुञ्चदयमाहुश्चन्द्रमाजिति पार्थिवा दिव्याः पशवाः रङ्ग्या उदये मृगाः शकुण्डान् पक्षिणा ब्रोमस्थ्येनो मुञ्चन्तम् हासः भुवा सर्वाविदम् रोमो रुद्रम् पाशुपतिश्च सह किशोर्या येषाम् संयत्मदानः सन्तु सदा शिवाः इवम् रोमो नक्षत्राणि भूमी यक्षाणि पर्वतानि समुद्रानद्यो वेशन्तास्तेणो मुञ्चन् बुमासः सप्तर्षेऽन्वायिधम् प्रो गो वो देवे विप्रे न्यमश्चेष्ठान्ब्रोमस्तेनो मुञ्चन्तुम् हासः ये दे देवादिविशदोऽन्तरिक्षसतश्च ये पृथिव्याम् शक्राये श्रुतास्थेनो मुञ्चन्तुम् हासः आदित्या रुद्रावसवो दिविदेवाधर्वाणः अङ्गेरसोमनेशिनस्थेनो मुञ्चन्तुम् हासः यज्ञम् ब्रोमो यजमानव्रजः सामानि भेषजा यजोऽंसि होत्राब्रो हस्थेनो मुञ्चन्तुम् भासः पञ्चराज्यानि विरुधाम् सोमः श्रेष्ठानिर्ब्रोमः दर्भो भङ्गोयवः सहस्थेनो मुञ्चन्तुम् भासः हरायान्द्रो मृत्योनेकशतम् ब्रो मस्थेनो मुञ्चन्तुम् मासः मरुपतीनातवानुकहायन् समाः संवत्सरान्मासां स्थे नो मुञ्चन्तुम् हासः एतदेवा दक्षिणतः पश्चात्प्राञ्च उदेत पुरस्तात् विश्वे देवा समेत्य तेनो दे मुञ्चन्तुम् हासः विश्वान् देवानिदम् रो मः सत्यसन्धानुतावृथाः विश्वाभिः पत्नीभिः सह तेनो मुञ्चन्तुम् हासः देवानिदम् रो मः सर्वाभिः पत्नीभिः सह तेनो मुञ्चन्तुम् हासः भूतम् प्रोमो भूतपतिम् भूतानामुदयो भर्षि भूतानि सर्वाः सङ्गत्य तेनो मुञ्चन्तुम् हासः या देवे पञ्चप्रतिशोये देवाद्वादयशर्तवाः संवत्सरस्येदम् स्थास्तेनः सन्तुशता शिवाः यन्मातले रथक्वेदममृतम् वेदभेषजम् इन्द्रो अक्षुप्राभेषयत्तदापो दत्त भेषजम् उच्छिष्ट नाम लोपञ्चोच्छिष्ट लोकाहेतः उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् उच्छिष्टेद्यावापृथिवी विश्वम् भूतम् समाहितम् आपः समुद्रमुच्छिष्टे चन्द्रमावताहेदः सन्नच्छिष्टे असंसोः मृत्युनुवायः प्रजापतिः लोग्यामुच्छिष्टायद्धाव्रश्चद्रश्चापिश्लेमये गृढाम् हस्ताज्ञा ब्रह्म विश्वसु च्योदष नाभेमिव सर्वदश्चक्रमुच्छिष्टे देवताश्रिताः कृत्सा मेजरुच्चष्ट उद्गेथ प्रस्तोतम् स्तुतम् दं। हिङ्कारवृच्छेश्वरः साम् न मेणश्च तन्मये अयेन्द्राज्ञम् पावमानम् महानाम्नेर्मभ्रातम् उच्चष्टयज्ञस्याङ्गान्यन्तर्गर्भा इव मातले राजसोऽयम् वाचपेयामग्न्यष्टोमस्तदद्भरः अभ्राश्वमेधाच्छे जीवबर्हिर्म अज्ञाधेयमथो दीक्षातामप्रच्छन्दसा सह उत्सन्नायज्ञाः सत्राण्यक्षश्चेधे समाहिताः अग्निहोत्रम् च श्रद्धा च वशत्कारो भ्रतन्तपाः दक्षेणेष्टम् भोक्तम् चोच्छश्चेधे समाहिताः एकत्र सक्रे प्रक्रेरोध्या विद्य चतुरात्र पंच रात्रात्रोभय सह षोडी सार्चोस्ा ज्ञेमृते प्रतिहारो निधनम् विश्वजिप्त्याभिजिप्त्या सान्धादिनात्राच्छिष्टे द्वादशाहोऽपि तन्मये सोण्दासन्नादिक्षेम स्वधार्जामृतम् सहाः उच्छिष्टे सर्वे प्रत्यन्तः कामाः कामे लदाद्रुपुः नवभूमेः समुद्रावच्छिष्टे धे सुदादिवाः आसोर्यभाच्छिष्टे होरात्रे पितन्मये उपहव्यम् विशो वन्दे च यज्ञागुहाहिताः विभर्ति भर्ता विश्वस्योच्छिष्ट जनितः पिता पिता जनितरुच्छिष्टा सोऽपौत्र पितामहः सक्षेयते विश्वस्येषा नो वृषा ृतम् सत्यम् नपो राष्ट्रम् श्रमो धर्मश्च कर्म च भोरम् भविष्यदुच्छ्यम् लक्ष्मेर्बलम् बलेः समर्थे लोजाको दिक्षत्रम् राष्ट्रम् षड्व्याः सम्मत्सरोऽष्टैलाप्रैषार्द चतुर्होदार आप्रियश्चादुर्मास्याने निेविदाः उच्छिष्टयज्ञाहोत्राः पशुबन्धाश्चतिष्ठायः अर्धमासाश्च मासाश्चतुभिः सह उच्छिष्टघोषणेरापश्चन यज्ञश्रुतुर्मही शर्कासिका स्मः नमोषाधयो वेरुभस्त्रिणा अभ्राणि विद्युतो वर्षमुच्छिष्टेताश्युता प्राद्य–प्राट्यस्व द्यप्राप्तिः समाप्त्यर्व्याप्त्यर्मः ये धतुः अत्याप्तिरुच्छष्टे भो तिष्ठाहेतानि हिताहुता यच्च प्राणदि प्राणेन यच्च पश्यद्विचक्षोषा उच्छष्टाज्जग्निर सर्वे जगिदेवादे विश्रुताः न च सामानिच्छन्दाम् त्रि पुराणै यजोषा सह उच्छिष्टाज्ञरे सर्वे दिविदेवादिविश्रुताः प्राणापालो चक्षष्वात् परमविषेश्चक्षुरिष्ठाया उच्छिष्टा जज्ञिले सर्वे दिविदेवादिविश्रुताः आनन्दामोदात् प्रमुदोभिमोदमुदश्चाये उच्छिष्टा जज्ञरे सर्वे द्विदेवादिविश्रुताः देवाः पितरो मनुष्या गन्धर्वाक्षरसश्च ये मुद्धिष्टाव्यज्ञ सर्वे शिविदेवादिश्रिताः यन्मन्यध्यायामावाहत्सङ्कल्पस्य गृहादधि काः सञ्जन्याः केवलाः कौच्येष्ठवरोऽभवत् तपश्चैवास्ताम् कर्म जाम् कर्म हत्यार्णवे ्यास्येव ब्रह्मज्येष्ठभवत् दश सागमाजायन्तदेव देवेभ्यः दे दे पुरा यो वेदान् विद्याप्रत्यक्षम् स वादे प्राणापानो चक्षुष्वाक्षेतिश्चक्षुश्च या मनस्ते दानो वाङ्मनस्येवागोऽपिमावहन् इन्द्राज्ञे अश्वातरहितम् चेज्येष्ठमुपासत प्रपश्चैवास्थाम् कर्म काम् परमहत्यर्नमे प्रपोहयज्ञकर्म नस्तत्ते ज्येष्ठमुपासत एतासेभो मक्कोर्वाजामद्धातया यद्विदुः योगेताम् नित्या मन्येतपुराणावित् कृत इन्द्रः कुतः सोमः कुतो अग्निराजायत कृतस्त्वष्टासमभवः कुतो धाता जायत इन्द्रारिन्द्रः सोभा सोमो सो अग्नेरग्निराजायत त्वष्टाहजज्ञे त्वष्टुर्धातुर्धाता जायत एता सन्दशा जाता देवदेवेभ्यः पुरा पुत्रेभ्यो लोकम् दत्त्वा कस्मिंस्ते लोकासत यदा केशानस्थ्यस्नाव मांसम् मज्जानमाभारत शरीरम् कापादवत्कल्लोकमनप्रावेशत् कुतः केषाम् कुतस्नाव कुतोऽस्थेन्याभारत अङ्कापर्वाणि मज्जानम् को माम् सम्कुताभारत संसृजानामते देवा ये सम्भारान् समभारन् सर्वम् संसृत्यमत्यम् देवा पुरोसमागीषन् वोरोपादावष्ठेवन्तौ शिरोहस्तावसौमुखम् पृष्ठे अध्यक्क्ये पार्श्वे कश्चत्समातथादृशेः शिरोहस्तावतामुखम् जिह्वान् त्वचा प्रावृत्य सर्वम् तत्सन्धासमादधान्मही यत्तच्छदेवमसा यत्सन्धया सम्भेदम् महत् येनेदमत्यरोचते कोऽस्मिन्वर्णमाभारत दे। सर्वे देवा उपाः शिक्षम् तदा जानाद्वधोः सति एषावशस्य या जाया सास्मिन्वर्णमाभारते गदा त्वष्ठावश्रेण पिता त्वष्ठर्यवत्तालः बृहम् दत्तामत्यम् देवाः पुरोषमावेशन् स्वप्नो वैतन्त्रे नरज पाप्मानो नाम देवताः जराखालप्यम् पालित्यम् शरीरमनुप्रावेशन् स्तेयम् दुष्कृतम् व्यजनम् सत्ये यज्ञायशो फलम् नक्षत्रमोजश्च शरे रमनुप्रावेशन् भोतिश्च विद्याश्च वा विद्याश्चयच्छान्यदोपदेश्यम् शरेरम् ब्रह्म प्रावेशदृजः सामाथो यजोः आनन्दामोदाः प्रमुदाभिमोदमुदश्चाये रसो नश्चा लत्तानुशरे रमनप्रावेशन् आलापाश्च प्रलापाश्चाभेलापालपश्चाये शरे श्चा श्चा सर्वे प्रागेशन्नायुजः प्रायुजाजुताः प्राणपानो चक्षश्वामक्षेश्चक्षुषश्च अया प्राणो राणो वाङ्मदश्चरे न लीयन्ते आशिषश्च प्राशिषश्च चित्तानि सर्वे सङ्कल्पाक्षरे रमणः प्रादेशन् णाश्च याः गुह्याः शुक्लाः स्थूलापस्ताबे भत्सा वा साधयन् अस्थे कृत्वा समिधम् तदस्तासाधयन् रेगः कृत्वाद्यम् देवाः शरीरम् ब्रह्म प्रावेशक्षरीरेधिः प्रजापातिः सूर्यश्च क्षुर्वातः प्राणम् पुरोषस्य विभेजले अथास्य तमात्मानन्देवाप्रायच्छन्नग्नये तस्माद्दे विद्वान् पुरोषमिदम् ब्रह्मे देवन्यते सर्वाह्यस्मिन्नेवता कावो गोष्ठैवासते प्रथमेन प्रमारेण त्रेधा विश्वम् विगच्छति अदयेकेन गच्छत्यदयेकेन गच्छति हैकेन निषेवते अप्सश्चे मासो वृद्धासु शरीरमन्तराहितम् तस्मिच्छवोऽध्यन्तरा तस्माच्छवोऽध्यक्षते ये बाहवो यायिष मोधन्दानाम् दीर्याणि योधम् चित्ता गोतम् च यद्धृते सर्वम् तदद्भुदे त्वमित्रेभ्यो दुषे गो रोदानाम् स प्रदाशय उत्तिष्ठदहं नक्ष्यम् मित्राण्यद्भुदे त्व जन्नामयो देवयीशानस्तर्बुदिः याभ्यामन्तरिक्षमावृतमियम् च ऋषिभीमहे ताभ्यामिन्द्रमेदिभ्यामहञ्जितमन्वेषा उत्तिष्ठस्तम् देवचनात्वो दयसेनाया दे सह भञ्जन्नमित्राणाम् सेनाम् भोगेभ्यः परिवारय सप्त जातान्यर्बुदमुदानाम् समीक्षयन् रेमाज्ये मुदे सर्वैरुत्तिष्ठ सेनाया स्वनाश्रोमुखे शोधकर्णे चक्रोशतो विकेशे पुरोषे हते राते अर्पुदे तु सङ्कर्षन्ते कलु कलम् मनः स दुःखमिच्छन्ति परिम्भात रमा साङ्गादित अर्बुदे तव अनिक्लवाजामहदवृद्धा शेणात्पदत्रिणः ध्वाङ्क्षा शकुलयस्तृप्यन्तमित्रेषु समीक्षयन्ते च अर्बुते तव अथो सर्वम् स्वापदम् अक्षेतादृप्यदत्रिमेः पौरोषे ये शिगुणापेदते च अर्बुते तव आगृह्णेतम् संगृहतम् प्राणापानान्यर्बुदे निवाशाघोषासय्यम् त्वमित्रेषु समीक्षयन् प्रदेशे अर्बुदे तव मुद्रेपयसंवेचन्ताम् भियामित्रान् संसृज पुरग्राहेर्बाह्वङ्कैर्मिथ्यामित्राण्यर्बुदे मुह्यम् तेषाम् बाहवश्चित्ता गूतम् च यद्धृदि मयिषामुच्चे च किञ्चनराजिते अर्बुदे तव प्रतिघ्नाः सन्धाः बन्धोरः पटोराव सन्मते रक्षलस्वरूपकामुताद्बूदे अन्तःपात्रे देहदेशाणिः देशिणी सर्वास्ताद्बुदे क्लोमित्रे ज्योदृषे गोरोदारान् स प्रदर्शय खडोरेधिकम् क्रमान् खर्वेकाम् चभोतारा अन्तर्हेता गन्धर्वारसञ्जाय सर्पायेतर च अदारक्षांसि चतुर्दं स्वाच्छावदः कुम्भमस्ताम् स्वभ्यासाय चोद्भ्यासाः उद्देपयत्वमर्बुदे जष्णश्चामित्राम् जयतामिन्द्र मेदिनौ रात्रेणामृतदर्शयाम् हतो ओमित्रान्यर्बुधे अग्निचिक्वाधोमशिखा जयम् देव्यन्तु सेनाया याद्बुधे प्रणुप्तानामिन्द्रो हन्तु वरम् वरम् अमित्राणाम् चेप धर्मामीषाम् मोदिकश्च उत्कासन्त हृदायान्योऽध्यप्राणबुदेशत् सौष्ठास्य मनोवर्तता ममित्रान्मोदमित्रिणः ये च धीराये चाधीराः पराञ्चोपधिराश्च ये समासाये च गोपराथोऽपस्ताभिवासिनाः सर्वां स्ता अर्बुदे त्वमित्रेभ्यो दृशे अर्बोधिश्चत्रिशम्श्चामित्रान्नो विविध्यता यथेषामिन्द्रवृत्रहन्धनामशीपते मित्राणाम् सहस्रशः वनस्पतेऽन्वानस्पत्या नोषधेरुतवेरुधाः अन्धर्वात्सरसः सर्वान् देवान् पुण्यजनान् वित्रेण सर्वां स्ता मित्रे द्वादृशे घोरो धारांश्च प्रदर्शय येषाम् वरुतो देवादित्यब्रह्माणस्पतेः येषाम् महिन्द्रश्चाग्निश्चातामित्र प्रजापतिः येषाम् वर्षायश्च पुनमित्रेषु समीक्षयन्न अल्बुदेव सर्वेषामीषाणामुत्तिष्ठदसन्नष्ट्यद्भम् विप्रादेव जनायोजम् इमम् सङ्गम् रामम् सञ्जित्या यथा लोकम् वितिष्ठध्वम् उत्तिष्ठदसन्नष्ट्यध्वमुदारा हेतुभिः सह सत्पायितरजनारक्ष्याम् समित्रा नो येषाम् गो वेतराज्य कृषन्दे अरुणे क्षेतुभिः सह ये अन्तरिक्षेयेति विपृथिव्याये च मानवाः कृषन्दे स्पेचेतसितुर्नामानमुपासदा अयो मुखाः शोचे मोघार्थो विकङ्करति मोघा क्रव्यादोपादरह्मसा सजन्धमित्रान्वज्रेणस्तुशन्धिना अन्तर्धे हि जातवेदादित्यपुना बम्बो त्रिषन्धेरियम् सेना सुहेदास्तु मेवशे उत्तिष्ठत्वम् देव जनाग्भूदेशेनाया अयम् बलिर्बाहोदस्तु सन्धे राहोतिप्रिया क्षितिपदे सञ्जातु शरव्ये हेयम् चतुष्पदे प्रत्ययमित्रेभ्यो भवत्कृषम् दे सह सेनाया धूमाक्षे सम्पादतु कृतुकर्णे दुद्र चक्रोशतोशम् हयः सेनायाचिते आरुणाः सन्तु केतवाः अवायन्ताम् पक्षिणो ये वम् स्यन्तरिक्षे द्विये चलन्ति स्वापोमक्षे गाः संवभन्ता मामगो वृद्धाः पुनरपेलन्ता रामिन्द्रेण समुधा समसर्था ब्रह्माणा च बृहत्पते दयान्द्रसन्धया सर्वान् देवानि अहोपैतो जायतमामुताः बृहस्पतिराङ्गिरसृशयो ब्रह्म संसिताः असुरक्षयानम् वधम् द्विशन्थिम् दिव्याश्रयन् येनासो मुक्तादित्यमभाविन्द्रश्च निष्ठतः निशन्धिम् देवा भजन्तो जासे च पलाय च सर्वाल्लोकान् समाचजम् देव आहुत्यानया बृहस्पतेराङ्गिरसो वज्र यमसिम् च सुरक्षयानम् वधम् बृहस्पते गिरसो वज्र यमसिम् च सुरक्षयाणम् वधम् तेनाहमोम् सेनाम् मिलिम् पामि बृहस्पते मित्राम् धन्योजसा सर्वे देवात्यायन् श्रि ये अष्टन्ति वशत्कृतम् इमाञ्जोषधमाहोदि वितोजाय समामुताः सर्वे देवात्यायम् दुर्तृशन् धेराहोदिप्रिया सन्धाम् आहतेम् रक्षतयया घ्रेमसो राजिताः वायुधमित्राणामिश्राण्याञ्ज तु इन्द्र येषाम् बाहोऽन्प्रतिफलकुमाशकण्ड्रपिधामिषुम् आलित्तयेषा मस्रम् विना स्वयक्षन्द्रमायुतामगासस्य पन्था यदि प्रेयोर्देव पुरा ब्रह्म वर्माणि च क्ले धनोपानम् बलिपानम् गृह्वाणायशोपोजिते सर्वम् तदनसङ्कृधि कुव्यातानुवर्तयन् वस्तुना च कृशन्धे प्रेहिषेन याचयामित्रान् प्रपजस्व ऋषम् धे तमासा त्वममित्रान् बलेवालय वृषथाज्यप्राणुक्तानाम् मामीषाम् मोचिकश्च न इति पदे संवादत्वमित्राणा ममोऽसिह मुत्यम् त्वद्यामोऽशेनाहामित्राणाम् नर्बुदे मूढामित्रान्यर्बुदे जज्ञेषाम् परम् वरम् अनयाज हि सेनया यश्च कवचे यश्चाकवजो मित्रायश्चात्मनि जापाशे कवचपाशेरज्ञाभिह दर्शया ये वर्मिणो ये वर्माणोऽत्राय च वर्मिणः सर्वाम् स्वादेहताश्वानो दन्तु भूम्या ये रथिनो ये अरथा सादा ये च सादिनः सर्वानदन्तु तान् हताम् गृध्राश्येनापुत्रिणः सहस्रगुणपाशेदा मामित्रीसेना सुमलेवधानाः विविद्धा कग रोहतम् सुपर्णे रदन्तो दुश्चितम् जयाहानम् यैमाम् प्रतीचीमा होति ममित्रो नो युत्सति याम् देवामि तिष्ठन्ति यस्यानास्ति विनाथनम् रयेन्द्रो हन्तु वृत्राः वज्रेण त्रिषन्धिना